मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं ट्वेल्व् सूर्यमण्डलवर्णनं श्रीगणेशाय नमः मुद्गल उवाच प्रसङ्गात् सर्वलोकानां वच्मि वै संस्थितिं परां स्वर्गाणामपि सङ्क्षेपान्मुख्यानाम् कथयामि ते भूर्लोकोध भुवर्लोकस्वर्लोकश्च महोजनः तपो लोकस्तर्थाः सत्यो लोकास्त्वण्डोद्भवा स्मृताः अर्यमा आख्यातः पुराणेषुप्रजापदे पद्भ्याम् नरैर्भवेद्गम्यः स एवं शास्त्रसम्मतः भूर्लोकः कथितो दक्षसप्तद्वीपात्मकः खलु प्रमाणमखिलं यावद्भूर्लोकस्य समन्ददः भुवर्लोके वचर्लोक परमाण कथ्यदका सूर्यपर्य भुवर्लोक प्रकर्ति तस्माच्च्रुवपर्योकथ बुध नेमयोष्ठ सख्याद प्रभो आव प्रवहश्चैव तथ्वान्न वहः परः संवहो विवह स्वार्थ तदूर्ध्वं च परा वहः तथा परिवहश्चोर्ध्वं वहस्तस्मात् परस्मृतः भूमेर्योजनलक्षेदु भानोर्वै लक्ष्ये दिवाकरात् प्रोक्तं चन्द्रमण्डलमास्थितं नक्षत्रमण्डलं कृष्णं तस्माल्लक्ष्ये प्रकाशदे द्वे लक्षयोजने तस्माद् ग्रहाणां मण्डलं स्मृतम् तस्माल्लक्षे ऋषीणां यन्मण्डलं च प्रकाशते ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः मेड्ढीभूतः समस्तस्य ज्योतिश्चक्रस्य वैध्रुवः वायुरश्मिधरसोऽपि चालयन् ज्योतिषां गणम् दशयोजनसाहस्रं मण्डलं भास्करस्य च तथा द्वादशसाहस्रं मण्डलं शशिनस्मृदं सूर्याधस्तास्तिदो राहुर्दशसाहस्रयो जनः त्रयोदशसहस्रं च मण्डलं तस्य कथ्यते तमोमयं तमस्थानं गत्या पर्वणि धावधि छायया सूर्यचन्द्रौ वा आच्छादयदि सत्वरम् तदेव ग्रहणं दक्षकध्यदे शास्त्रवादिभिः अखिलं तमसा व्याप्तं मण्डलं रवि चन्द्रस्य षोडशो भागो मण्डलं भार्गवस्य च भार्गवात्पादहीनं यद्विज तच्च बृहस्पदेः बृहस्पदेः पादहीनं मण्डलं भौम सौरयोः विस्ताराच्च तयोः पादहीनं सौम्यस्य मण्डलम् तारा तारानक्षत्ररूपाणि हीनानि तु परस्परात् शतानि पञ्चचत्वारि त्रीणि द्वे योजनानि वै सर्वेभ्योऽपि निकृष्टानि ताराणां मण्डलानि तु योजनाध्यर्ममात्राणि नून न विपरिष्टात्रा ग्रहा दूरसर्ण सौरोिरा भौमश विज्ञे मंदगास्ताच पुनरनेहाग्रहा सूर्यसोमो बुधश्चैव भार्गवश्चैव शीघ्रगाः अयने द्वे समास्थाय भानुश्चरति सर्वदा प्रसर्पदि विस्तीर्णं मण्डलं कृत्वा चरत्योर्ध्वं नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्वति नक्षत्रेभ्यः कविश्चोर्ध्वं तस्मादूर्ध्वं बुधस्मृतः भौमः सोमः सुतादूर्ध्वं तस्मादूर्ध्वं बृहस्पतिः शनैश्चरस्तदो ह्यूर्ध्वम् तस्मात् सप्तर्षिमण्डलं ऋषीणां चैवसप्तानां ध्रुवश्चोर्ध्वं व्यवस्थितः नवयोजनसाहस्रो भास्करस्य रथस्मृतः ईशादण्डस्तथैवास्य द्विगुणो वैप्रजापदे लक्षप्रमाणम शश्चध्रुवाधारेण संस्थितः द्वितीये क्षेदुत्तच्चक्रं संस्थितं मानसाचले चक्रं राशिमयं तस्य द्वादशारं प्रकीर्तितं गायत्रीमुख्यकास्तस्य सप्तच्छन्दो मया हयाः दक्षिणायनमासाद्यक्षिप्रं क्षिप्रं प्रसर्पदि यदोत्तरगदो भानुरक्षिप्रं चैव सर्पदि मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी दक्षिणे धर्मराजस्य वरुणस्य च पश्चिमे उत्तरे दुकुबेरस्य तन्नामानि निबोधमे अमरावदी संयमनी सुखा चैव विभाक्रमाद ज्योतिषां च क्रमादाय देवदेव प्रजापतिः उदये महेन्द्रस्य नगर्यां स यमपुर्यां च मध्याह्ने सायाह्ने वरुणस्यदु निशामध्ये च कौबेर्यामेवं चरदिभास्करः उदयास्तमयेनायं सर्वकालसमानगः अशेषासु दिशास्वेष सर्वासु विदिशासु च वल्लोके भ्रमत्येवं दिनेश्वरः समानं च भिन्नं कालं प्रकाशयन् करोत्यहस्तधारात्रिं किरणैष्ठापयन् प्रजाः दिवाकरकरैरेदत्पूरितं भुवनत्रयं। जलं स्थलं न भ प्रोक्तं लोकानां स्थानमुत्तमम् आदित्यमूलमेतच्च त्रिविधं नात्र संशयः भवत्यस्माज्जगत्कृष्णं सदेवासुरमानुषं मध्यभागे तदा धारमन्दे तत्र प्रतिष्ठितम् ब्रह्मविष्णो महेश्येन्द्रचन्द्रताराग्निनागजम् वीरुद्विप्रोदकानां यत्तेजस्तद्रविसम्भवम् द्युतेर्दिति मदाम् कृष्णा यत्तेजः सार्वलौकिकं सर्वात्मा सर्वलोकेशो सर्त्म सर्वोकेश गणेशाश्रभाकर मूलम त्रिभुवन कर्मूपी चवत तत्सदिश्रीमदांदे पुराणोपनिषद्रीमगे महापुराणे द्वीए एकदन्तचरिते सूर्यमण्डलवर्णनं नाम द्वादशोऽध्यायः